भगवद्गीता चाप्टर् सिक्स् वर्षस् वन् टु टेन् अधशस्तोऽध्यायः श्रीभगवानुवाच अनाश्रित कर्मबलम् कार्यम् कर्म करो च योगी जननिरग्निर्न चात्रियः यम् सन्न्यासमिति प्राहुर्योगन्तम् विद्धिपाण्डव न ह्यसन्न्यस्तसङ्कल्पो योगी भवति सश्चन आदुरुक्षोर्मुनेर्योगम् कर्म तस्यैव शमकारणमुच्यते यदा किन्द्रियार्थेषु न कर्मस्वनुसज्जते सर्वसङ्कल्पसन्न्यासी योगारूगस्तदोच्यते उद्धरेद्धात्मनात्मानम् नात्मानमवसादये आत्मैव क्यात्मनो रिपुरात्मनः बन्धुरात्मात्मनस्तस्य येनात्मैवात्मनाजिदः अनात्मनः सुत्रुत्वे वर्तेदात्मैव शत्रुवत् जिदात्मनः प्रशान्तस्य परमात्मा समाहिदः शीतोष्णः सुखदुःखेषु तथा मानाभमानयोः ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः युग्रे युज्यते योगी समलोस्तस्मकाञ्जनः सुहृन्मित्रायुदातीन मध्यस्तद्वेष्य बन्धुषु साधुष्वपि च योगीयुञ्जीदसमात्मानं रहसि स्थितः एकागी यदचित्तात्मा निराशिरपरिग्रहः भगवद्गीता चाप्टर् सिक्स् वर्सस् लेवेन्ट् ट्वेण्टि शुचौदेश्यप्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छ्रितं नादिनीजं शैलाजिनकुशोत्तरं तत्रैकाग्रह्मणः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये समं काय शिरोग्रीवं धारयन्न स्थिरः सम्प्रेक्ष्य स्वं दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिर्ब्रह्मचारिव्रदे स्थितः मनःसंयमयमच्चित्तो युक्तासीद मत्परः युञ्जन्येवंसदात्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति नास्त्यस्नतः सुयोगोऽस्ति न चैकान्तमनश्नदः न जाग्रदो जाग्रतो नैव चार्जुन युक्ताकारविकारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तमात्मन्येवावतिष्ठति निःस्पृशः सर्वकामेभ्यो युक्त इत्युच्यते तदा यदा दीपो निवातस्थो न्ये गते सोपमा स्मृता योगिनो यद चित्तस्य युञ्जतो योगमात्मनः यत्रोपरमपि चित्तन्निरुद्धं योगसेवया यत्र चैवात्मनात्मानम् पश्यन्नात्मनि तुष्यति भगवद्गीता सिक्स् वर्ष ट्वेण्टिवन् तु सति सुकमाद्यन्दितम् यत्तद्बुद्धिग्राह्यमदीन्द्रियम् वेत्ति यत्र न चैवयम् स्थित यम् लब्ध्वा चाबरम् लाभम् मन्यदेनाधिगन्ततः यस्मिन् न दुःखेन गुरुणाभिचाल्यते तम् विद्याद्दुःखसंयोगवियोगम् योगसंस्मिदम् स निश्चयेन योक्तव्यो योगा निर्विण्ण चेदशा सङ्कल्पप्रभवान् कामान् यत्त्वा सर्वा न शेषतः मनसैवेन्द्रियग्रामं विनियम्य समन्तदः बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनस्कृत्वा यतो यतो निश्चरति मनः तदस्तदो ततस्ततो निजम्यै दद्धात्मन्येव वशं नयेत् प्रशान्तमनसं येन योगिनं सुखमुत्तमम् उभैदिशान्दरजसं ब्रह्मभूतमगल्मषम् युञ्जन्येवम् सदात्मानम् योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्शमत्यन्तम् सुखमश्नुदे सर्वभूतस्तमात्मानम् सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहन्न प्रणश्यामि सेण प्रणश्यति भगवद्गीता चाप्टर् सिक्स् वर्षस् टर्टि वन् टु फोर्टि सर्वभूतस्थितं व्यो मां भजत्येकत्वमास्थितः सर्वदा वर्तमानोऽपि संयोगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योर्जुना। सुखं वा यदि वा दुःखं स योगी परमो मदः अर्जुन उवाच योऽयं योगत्वया प्रोक्तः साम्येन मधुसूदन ेदस्याहन्न पश्यामि चञ्चल त्वा स्थितिं स्थिराम् चञ्चलं हि मनकृष्णप्रमादिबलवद्दृढं तस्याहन्निग्रहं मन्ये वायोरिवसुदुष्करम् श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन कौन्तेयवैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्राप इति मे मदिः पश्यात्मना दु यतता शक्योवाप्तुमुपायतः अर्जुनौ वाजा अयधि श्रद्धयो भेदो योगाचलितमानतः अप्राप्य योगसंसिद्धिं गाङ्गीं कृष्ण गच्छति कच्छिन्नो भयविभ्रष्टश्चिन्नं भ्रमिव नश्यदि अप्रदिष्टो एतन्मे संशयं कृष्णच्चेत्तुमर्थस्य शेषतः त्वदन्यसंशयस्यास्य चेत्तानख्युपपद्यते वाचा पार्थनैवेहनामोत्र विनाशस्तस्य विद्यते न हि कल्याणकृतश्चिद्दुर्गदिं तादगच्छति भगवद्गीता चाप्टर् सिक्स् वर्षस् फार्टि वन् टु फोर्टि सेवेन् प्राप्य पुण्यकृतान् लोकान्नुषित्वा शाश्वती समाः शुचीनां श्रीमदाङ्गेः योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमता ये तद्धि दुर्लभतरं लोगे जन्म यदीदृशं तत्र तं बुद्धिसंयोगं लभदे पौर्वदेहितं यतदे च तदो भूयसं सिद्धौ कुरु पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सह जिज्ञासुरभियोगस्य शब्दब्रह्मादिवर्तते प्रयत्नाद्यतमानस्तु योगी संशुद्धविल्विषः अनेकजन्म संसिद्धस्ततो याधिपराङ्गदिम् तपस्विभ्यो दिगो योगी ज्ञानिभ्योऽभिमदोऽधिकः कर्मभ्यश्चाधिगो योगी तस्माद्योगी भवार्जुन योगिनामपि सर्वेषां मध्यतेनान्तरात्मना श्रद्धावान् भजधेयो मां समेयुक्रतमो मदः ॐ तत्सद् युधि श्रीमद्भगवद्गीतासूपनिषत्सु षष्ठोऽध्यायः